अथ चत्वारिंशम् दशकम् तदनु नन्दममन्दशुभास्पदम् नृपपुरीम् करदानकृते गतम् समवलोक्य जगादभवत्पिता विदितकम् सहायजनोद्यमः अयि सखे तव बालकजन्म माम् सुखयतेऽद्य निजात्मजन्मवत् इति भवत्पितताम् प्रजनायके समधिरोप्य शशंसतमादरात् इह च सन्त्यनिमित्तशतानि ते तद्वचसा व्रजनायको भवदपायभियादृतमाययौ अवसरे खलु तत्र काचन व्रजपदे मधुराकृतिरंगना कृतिरङ्गना कपटपोतक ते गता सपदि सा हृतबालकचेतना निशिचरान्वयजा किल पूतनाम् व्रजवधूष्विह केयमितीक्षणम् विमृशतीषु भवन्तमुपाददे ललितभावविलासहृतात्मभिर्युवतिभिः प्रतिरोद्धुमपारिता स्तनमसौ भवनान्तनिषे दुषी प्रददुषी भवते कपटात्मने समधिरुह्य तदङ्कमशङ्कितस्त्वमथ बालकलोपनरोषित महदि वाम्रफलम् कुचमण्डलम् प्रतिचुचूषिथ असुभिरेव समम् धयति त्वयि स्तनमसौ स्तनितोपमनिस्वना निरपतद्भयदायि निजम् वपुः प्रतिगता प्रविसर्य भुजाबुभौ भयदघोषणभीषण विग्रहश्रवणदर्शन मोहितवल्लवे व्रजपदे तदुरस्थलखेलनम् ननु भवन्तमगृह्णत गोपिकाः भुवन मङ्गल नामभिरेव ते युवतिभिर्बहुधा कृतरक्षणः त्वमयि वातनिकेतननाथमम् अगदयन् कुरु तावकसेवकम् इति चत्वारिंशम् दशकम्